एवं विनिश्चित्य ततः कुन्ती पुत्रो धनञ्जयः अनुप्रविश्य राजानमापृच्छ्य च विशाम्पते धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ब्राह्मणागम्यतां शीघ्रं यावत् परधनैषिणः न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे यावन्निवर्तयाम्यद्य चौरहस्ताद्धनं तव सोन्दसत्यमहाबाहुर्धन्वीवर्मी रथीध्वजी शरैर्विध्वस्यतांश्चौरा नवजित्य च तद्धनम् ब्राह्मणम् समुपाकृत्या यशः च पाण्डवः ततस्तद्गोधनं पार्थो दत्त्वा तस्मै द्विजातये आजगामपुरं वीरः सव्यसाची धनञ्जयः सोऽभिवाद्यगुरोन्सर्वान् सर्वैश्चाप्यभिनन्दितः धर्मराजमुवाचेदं व्रतमादिश मे प्रभो समयः समतिक्रान्तो भवत्सन्दर्शने मया वनवासो गमिष्यामि समयो इत्युक्तो धर्मराजस्तो सहसा वाक्यमप्रियम् कथमित्यब्रवीद्वाचा, शोकार्तः सज्जमानया युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् उवाच दीनो राजा च धनञ्जयमिदं वचः प्रमाणमस्मि मत्तः शृणुवचो नघ